नारायणीयं दशकं थर्टीन् मीटर शिखरिणि हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सां वर्ते पयसि निजजम्खा परिमिदे भवद्भक्तो गत्वा कपडपडुधीर नारदमुनिशनैरुचे नन्दन् दनुजमपि निन्दं स्तव बलं समायाविष्णोर्हरदि भवदीयां वसुमदीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः नदन् क्वा सौ विदितमुनिना दर्शितपथो भवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदपात् अहो आरण्यायं मृगयिदि हसन्तं बहुतराैर्दुरुक्तायैर्विध्यन्तं दिदि सुदमवज्ञाय भगवन् महीं दृष्ट्वा दंष्ट्रा शिरसि चकिताम् स्वेन महसा पयोधाबवाधाय प्रसभमुदयुङ्क्ता मृगविद्धौ कदा पाणौ दैत्ये त्वमपि हि गृहीतोन्नदगदो नियुधन क्रीडन् खडखडरवोत्कृष्टवियदा लोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुम् निरुन्ध्याः सन्ध्यादः प्रथममिति धात्रा जगदिषे गदोन्मर्दे तस्मिंस्तव खलु गदायां दिदि भुवो गदाखादाद् भूमौ मृदुस्मेरास्यस्त्वं दनुजगुलनिर्मूलनचणम् महाचक्रं स्मृत्वा करभुविदधानो रुरुचिषे तदशूलं कालप्रतिमरुषि दैत्ये विसर्जदि त्वयि चिन्तत्येनत् करफलितचक्रप्रहरणात् समारुष्ठो मुष्ठ्या सकलु विदुदं स्त्वां समतनोद गलन्माये मायास्त्वयि किलज्जगन्मोहनकरीः भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विदधनरोषान्धमनस्सम् गरिष्ठाभिर्मुष्टिप्रहृदिभिरभिघ्नन्दमसुरम् स्वपादाङ्गुष्टेन श्रवणपदमूले निरवधीः महाकायसोऽयं तव करसरोजप्रमधितोदो गलद्रक्तो वक्त्रादपदृशिभिष्वाखिदखतिः तदा त्वा मुद्धामप्रमदभरविद्योदिहृदया मुनीन्द्रा सान्द्राभिस्तुदिभिरनुवन्नध्वरतनुम् त्वजिच्छन्दो रोमस्वपि कुशगणश्चक्षुषिघृतं चतुर्होदारोङ्घ्रौ सृगविवदने चोदर इडा प्रभा जिह्वायां ते परपुरुषकर्णे विभो सोमो वीर्यं वरदगल देश्येप्युपसदः मुनीन्द्रैरित्यादिष्टवनमुखरैर्मोदिदमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् स्वधिष्ण्यं सम्प्राप्तः मधुरिभो निरुन्ध्यारोगमे सकलमपि वादालयपदे सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द